अथ त्रिषष्टितमः सर्गः प्रतिबुद्धो मुहूर्तेन शोकोपहत चेतनः अथ राजा दशरथः स चिन्तामभ्यपद्यत रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् आपेदे उपसर्गस्तं तमः सूर्यमिवासुरम् सभार्ये हि गते रामे कौसल्याम् कोसलेश्वरः विवक्षुरसितापाङ्गीम् स्मृत्वा दुष्कृतमात्मनः स राजारजनीम् षष्ठीम् रामेर्प्रव्राजिते वनम् अर्धरात्रे दशरथः स्वस्मरद्दुष्कृतम् कृतम् स राजा पुत्रशोकार्तः दुष्कृतमात्मनः कौसल्याम् पुत्रशोकार्तामिदम् वचनमब्रवीत् यदा चरति कल्याणि शुभम् वा शुभम् तदेव लभते भद्रे कर्ता कर्मजमात्मनः गुरुलाघवमर्थानामारम्भे कर्मणाम् फलम् दोषम् वा यो न जानाति स इति होच्यते कश्चिदाम् रवणम् छित्त्वा पलाशांश्च निषिञ्चति पुष्पम् दृष्ट्वा फले गृध्रुः सशोचति फलागमे अविज्ञायफलम् यो हि कर्मत्वे स शोचेत्फलवेलायाम् यथा किं शुकसेचकः सोऽहमाम् रवणम् छित्त्वा पलाशाम् शन्यसेचयम् रामम् फलागमेर्त्यक्त्वा पश्चाच्छोचामि दुर्मतिः लब्धशब्देन कौसल्ये कुमारेण धनुष्मता कुमारः शब्दवेधीति मया पापमिदम् कृतम् तदिदम् मे नु सम्मोहादिह बालेन यथा स्याद्भक्षितम् विषम् यथान्यः पुरुषः कश्चित् फलाशैर्मोहितो भवेत् एवम् मयाप्यविज्ञातम् शब्दवेध्यमिदम् फलम् देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ततः प्रावृडनुप्राप्ता मम कामविवर्धिनी अपास्य हिरसान् भौमान्स्तप्त्वा च जगदम् शुभिः परेताचरिताम् भीमाम् रविराचरते दिशं। उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ततो जहशिरे सर्वेभ्येकसारङ्गबर्हिणः क्लिन्नपक्षोत्तरा स्नाता कृच्छ्रादिवपतत्रिणः वृष्टिवातावधूताग्रान्पादपानभिपेदिरे आबभौ मत्तसारङ्गस्तोजराशिरिवाचलः पाण्डुरारुणवर्णानि श्रोताम् सिविमलान्यपि शुश्रुवुर्गिरिधातुभ्यः स भस्मानि भुजङ्गवत् तस्मिन्नतिसुखे काले अन्यद्वाश्वापदम् किञ्चिज्जिघाम् सुरजितेन्द्रियः अथान्धकारे त्वश्रौषम् जले कुम्भस्य पूर्यतः अचक्षुर्विषये घोषम् वारणस्येव नर्दतः ततोऽहं विशोपमं दीप्तमाशीविषोपमम् शब्दम् प्रति गजप्रेप्सुरभिलक्ष्यमपातयम् अमुञ्चन्निशितम् बाणमहमाशीविषोपमम् तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः हा हेतिपततस्तो ये बाणाद्यथितमर्मणः तस्मिन्निपतिते भूमौ वागभूत्तत्र मानुषी कथमस्मद्विधे शस्त्रम् निपतेच्च तपस्विनी प्रविविक्ताम् नदीम् रात्रा बुदाहारोऽहमागतः इषुणाभिहतः केन कस्य पापकृतम् मया ऋषेर्हिन्यस्तदण्डस्य वने वन्येव जीवतः कथम् नु शस्त्रेण मद्विधस्य विधीयते जटाभारधरस्यैव वल्कलाजिनवाससः को वधेन ममार्थी स्यात् किम् वा स्यापकृतम् मया एवम् निष्फलमारब्धम् केवलानर्थसंहितम् न क्वचित् साधु मेमम् तथा नु शोचामि जीवितक्षयमात्मनः मातरम् पितरम् चोभावनु शोचामि मद्वधे तदेतन्मिथुनम् वृद्धम् चिरकालभृतम् मया मयि पञ्चत्वमापन्नेकाम् वृत्तिम् वृद्धौ च मातापितरा वहम् चैकेषु ना सर्वे सुबालेनाकृतात्मना ताम् गिरम् करुणम् श्रुत्वा मम धर्मानुकाङ्क्षिणः कराभ्याम् सशरम् चापम् यथि तस्यापतद्भुवि तस्याहम् करुणम् श्रुत्वा ऋषेर्विलपतो निशि सम्भ्रान्तः शोकवेगेन भृशमासम् विचेतनः तम् देशमहमागम्य दीन अपश्यमिषुणातीरे सरयैवास्तापसंहतम् अवकीर्णजटाभारम् प्रविद्धकलशोदकम् पांशु शयानं शल्यवेधितं। शल्यवेधितम् स मामुद्वीक्ष्य नेत्राभ्याम् त्रस्तमस्वस्थचेतनम् इत्युवाच वचः क्रूरम् दिधक्षन्निव तेजसा किम् तवापकृतम् राजन्वने निवसता मया जिहीर्षुरम्भो ताडितस्त्वया एकेन खलु बाणेन बर्मण्यभिहते मयि द्वावन्धौ निहतौ वृद्धौ माता जनयिता चमे। मे तौ दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ चिरमाशाम् कृताम् कष्टाम् तृष्णाम् सन्धारयिष्यतः न नूनम् तपसो वास्ति फलयोगः वा पिता न जानीते शयानम् पतितम् भुवि जानन्नपि च किम् कुर्यादशक्तश्चापरिक्रमः भिद्यमानमिवा शक्तस्त्रातुमन्यो नगोऽनगम् पितुस्त्वमेव मे गत्वा शीघ्रमा चक्ष्वराघवा न त्वामनुदहेत् क्रुद्धो वनमग्निरिवैधितः इयमेकपति राजन् यतो मे, मे पितुराश्रमः तम् प्रसादय गत्वा नत्वा सङ्कुपितः विशल्यम् कुरु माम् राजन्मर्म मे निशितः शरः ऋणद्धि मृदुसोत्सेधम् तीरमम्बुरयो यथा स शल्यः क्लिश्यते प्राणैर्विशल्यो विनशिष्यति इति मामविशच्चिन्ता तस्य शल्यापकर्षणे दुःखितस्य च दीनस्य मम शोकातुरस्य च लक्षयामास सर्षिश्चिन्ताम् मुनिसुतस्तदा ताम्यमानम् समाम् कृच्छ्रा दुवाच परमार्थवित् सीदमानो विवृत्ताङ्गोचेष्टमानो गतः क्षयम् संस्तभ्यशोकम् धैर्येण स्थिरचित्तो भवाम्यहम् ब्रह्महत्याकृतम् तापम् हृदयादपनीयता न द्विजातिरहम् राजन्मा भूत्ते मनसो व्यथा श्रूद्रायामस्म्य वैश्येन जातो नरवराधिप इतीवदतः कृच्छाद् बाणाभिहतमर्मणः विघूर्णतो विचेष्टस्य वेपमानस्य भूतले तस्य त्वादाम्यमानस्य तम् बाणमहमुद्धरम् समामुद्वीक्ष्य सन्त्रस्तो जहौ प्राणास्तपो धनः जलार्द्रगात्रम् तु विलप्य कच्छ्रम् मर्म ततः सरय्वान्तमहंशयानम् समीक्ष्य भद्रे सुभृशम् इत्यार्षे श्रीमद् वाल्मीकिये वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिषष्टितमः